पादपाठम् ध्वस्रयोः पुरुषन्द्यो आसहस्राणि दद्महे तरल् धावति। ध्वस्रयोः पुरुषन्द्यो आसहस्राणि दद्महे तरल् समन्दीधावति ध्वस्रयोः पुरुषन्द्यो आसहस्राणि दद्महे तरल सबंदी धाव